क्रीडावसाने ते सर्वे शुचिवस्त्रास्वलङ्कृताः दिवसान्ते परिश्रान्ता विहृत्य च कुरुद्वहाः विहारावसथेष्वेव वीरावासमरोचयन् खिन्नस्तु बलवान् भीमो व्यायम्याभ्यधिकं तदा वाहयित्वा कुमारां स्ताञ्जलक्रीडागतांस्तदा प्रमाणकोट्यां वा सार्थी सुष्वापावाप्य तत्स्थलं शीतं वातं समासाद्य श्रान्तो मदविमोहितः विषेण च परीताङ्गो निश्चेष्टः पाण्डुनन्दनः ततो बध्वालतापाशैः भीमं दुर्योधनस्वयं मृतकल्पं तदा वीरं स्थलाज्जलमपातयत् स निःसङ्गो जलस्यन्तम् अथ वै पाण्डवो विशत् आक्रामन्नागभवने तदा नागकुमारकान्त समेत्य बहुभिः तदा नागैर्महाविषैः अदश्यतभृशं भीमो महादंष्ट्रैर्विशोल्बणैः ततोऽस्य दश्यमानस्य तद्विषं कालकूटकं हतं सर्पविषेणैव स्थावरं जङ्गमेन तु दंष्ट्राश्च दंष्टॄणां तेषां मर्मस्वपि निपातिताः त्वचं नैवास्य बिभिदुः सारत्वात् पृथुवक्षसः तत प्रबुद्धः कौन्तेयः सर्वं सञ्च्छिद्यबन्धनं पोथयामास तान् सर्वान् केचिद्भीताः प्रदुद्रुवुः हतावशेषाभीमेन सर्वे वासु ऊचुश्च सर्पराजानं वासु वासवोपमम्